श्रीहरये नमः अत एकपञ्चाशदमोऽध्यायः श्रीसुक उवाच तं विलोक्य विनिष्क्रान्तम् उज्जिहानम् इवोडुपं दर्शनीयतमं श्यामं पीतकौसेयवाससं श्रीवत्सवक्षसं प्राजत् कौस्तुभामुक्तकन्धरं पृथुदीर्घचतुर्बाहुं नवकञ्जारुणीक्षणं नित्यप्रमुदितं श्रीमत्सु कोलं सुचिस्मितं मुकारविन्दभिप्राणं स्फुरन्मकरकुण्डलं वासुदेवो ह्ययमिति पुमां श्रीवत्सलाञ्चनः चतुर्भुजोरविन्दाक्षो वनमाल्यति सुन्दरः लक्षणैर्नारदप्रोक्तैर्नान्यो भवितुमर्हति निरायुधश्चलन् पद्भ्यां योत्स्येन निरायुदः इति निश्चित्य यवनः प्राद्रवन्तं पराङ्मुखम् अन्वथावज्जिग्रक्षोस्तं दूरापमपि योगिना प्तं यवात्मानं पदे नीतो दर्शयता यवनेसोद्रिकंधरं पलायनं यदुकुले जातस्य तव नोचितम् इति क्षिपन्ननुगतो नैनं प्राप अहदासुवः एवं भगवान् प्राविसद्गिरिकन्धरम् सोऽपि प्रविष्टस्तत्राण्यं स यानं ददृशे नरं नन्वसौ धूरमानीय शेते मामिकसाधुवत् इति चिरं शुभ सनैरुन्मील्यलोचने दिशो विलोकयन्पार्श्वे तं मद्राक्षी तव स्थितं स धावतस्य रोष्टस्य दृष्टिपातेन भारत देहजेनाग्निनादग्धो भस्मसात राजोवाच को नाम कस्य किं वीर्य एव च कस्माद् गुहां गतः शिष्ये किं तेजो यवनार्दनः श्रीसुक उवाच स इक्ष्वाकुकुले जातो मां महान् मुचुकुन्द इति ख्यातो ब्रह्मण्यक् सत्यशङ्करः स याचितः सुरगणैः इन्द्राद्यै आत्मरक्षणे असुरेभ्यः परित्रस्तैस्तद्रक्षां सोऽकरो चिरं लब्ध्वा गुहं ते स्वः पालं मुचुकुन्दमधा परिपालनात् नरलोके परित्यज्य राजं निहतकण्टकम् अस्मान् पालयथो वीर कामास्ते सर्वमुज्झिताः सुतामहिष्यो भवतो ज्ञातयो मात्यमन्त्रिणः प्रजाश्चतुल्यकालीया नादुना सन्ति कालिताः कालो बलीयान् बलिनां भगवान् ईश्वरोऽव्ययः प्रजाः क्रीटन क्रीडन् पशुपालो यता पशून् वरं वृष्णीष्वभद्रं ते रुते कैवल्यमध्यनः एक एवेश्वरस्तस्य भगवान् विष्णु अव्ययः एवमुक्तः स वैदेवान् असयिष्ट अस इष्टगुहाभिष्ठो निद्रया देवदत्तया स्वापं यातं यस्तु मध्ये बोधये अचेतनः सत्त्वया दृष्टमात्रस्तु बस्मी भवतु तत्क्षणात् यवने भस्मसान्निते भगवान् सात्वदर्शभः आत्मानं दर्शयामाश मुचुकुन्धाय धीमते तमालोक्यघनश्यामं पीतकौसेयवाससं श्रीवत्सवक्षसम्भ्राज कौस्तुभेन विराजितं चतुर्भुजं रोचमानं वैजयन्त्या च चारुप्रस्नवधनं स्फुरन्मकरकुण्डलं प्रेक्षणीयम् निर्नृलोकस्य सानुरागस्मिते क्षणम् अपि च वयसम्मत्त मृगेन्द्रोद्धारविक्रमं पर्यभृच्छन्महाबुद्धेस्तेजसा दर्शितः सङ्कितत्सनखे दुर्दर्शमिव तेजसा मुचुकुन्त उवाच को भवानिहसम्प्राप्तो विपिने गिरिगह्वरे पद्भ्यां पद्मपलाशाभ्यां विचरसि बुरुकण्टके किं स्वित्तेजस्विनां तेजो भगवान् वा विभावसुः सूर्यः सोमो महेन्द्रो वा लोकपालोपरोऽपि वा मन्ये त्वां त्रयाणां पुरुषर्षभं यद्भतसे गुहाध्वान्तं प्रदीभः प्रभयायत अस्माकं नरपुङ्गवा स्वजन्मकर्मगोत्रं वा कथ्यतां यदि रोचते वयं तु पुरुष व्याघ्र ऐश्वाकाशत्रबन्धवः मुचुकुन्द प्रोक्तो यौवना स्वात्मजप्रभो चिरप्रजागरश्रान्तो निद्रयोपहतेन्द्रियः स विजने कामम् केनाप्युत्थापितोऽधुना सोऽपि भस्मीकृतो नूनम् आत्मीयेनैव पाप्मना अनन्तरं भवान् श्रीमान् लक्षितो मित्रसाधनः तेजसा ते, ते विषह्येण भूरि द्रष्टुं न शक्नुमः हतौ जसो महाभाग माननीयोऽसि देहिनां एवं सम्भाषितो राज्ञा भगवान् भूतभावनः प्रत्याहप्रहसन्वाण्या मेघनादगभीरया जन्मकर्माभिधानानि सन्ति मेघसहस्रकः न शक्यन्ते नु सङ्ख्यातुम् अनन्तत्वान्मयाभिहे क्वचित् राजांसि विममे पार्थिवानि बुरुजन्मभिः गुणकर्माभितानानि न कालत्रयोपपन्नानि जन्मकर्माणि मेन्रप अनुक्रमन्तो नैवांतं गच्छन्ति परमर्षयः तथा व्यत्यथनान्यङ्घ शृणुष्व मम विज्ञापितो विरिञ्चेन पुराहं धर्मगुप्तये भूमिर्भारायमाणानाम् असुराणां क्षयाय अवतिर्णो यदुकुले गृह आनघदुन्धुभेः वदन्ति वासुदेवेति वसुधेवसुतं वा वा वा हि मां कालनेमेर्हतकं श प्रलम्बात्याश्च सद्विषः अयं च यवनो ध राजन्ते दिग्मचक्षुषां सोऽहं तवानुग्रहार्थं गुहामेताम् उपागतः प्रचुरं पूर्वं त्वयाहं भक्तवत्सलहां वरान् वृणीश्वरा धर्षे सर्वान् कामान् ददामि ते मां प्रपन्नो जनः कश्चिन्न इत्युक्तस्तं प्रणं याह मुचुकुन्दो मुदान्वितः ज्ञात्वा नारायणं देवं गर्गवाक्यम् अनुस्मरन् मुचुकुन्त उवाच विमोहितोऽयं जनईशमायया। त्वदीयया त्वां न भजत्यनर्तदृक् सुखाय दुःखप्रभवेषु सज्जते गृहेषु योषित् पुरुषश्च वञ्चितः लब्ध्वा जनो दुर्लभमत्र मानुषं कथञ्चित्तव्यङ्गमयत्नतो न गां पधारविन्तं न भजत्यसन्मते ग्रहान्धकूपे पतितो यथापशुः ममैष कालो जिदनिष्फलो गतो राज्यश्रियोन्नमधस्य भूपतेः मर्त्यात्मबुद्धे सुततारगोसभूषो आजश्चमानश्च दुरन्तचिन्तया कलेवरेऽस्मिन् गडकुढ्यसन्निभे निरूढमानो नरदेव इत्यहम् वृथो रथे भस्वभतात्यनीकपैर्घां पर्यटन्स्त्वा गणयन् प्रवृद्धलोभं विषयेषु लालसम् त्वमप्रमत्तः सहसा विपद्यसे शुल्ले लिहानो हिरि वा कुमन्तः पुरारतैर्हेम परिष्कृतैश्चरन् मदङ्गजैर्वा नरदेवसंहितः स एव कालेन दुरत्य येन ते कलेव रोविट्कृमि भस्मसंहितः निर्जित्यधिक्चक्रमभूतविग्रहो रासनस्थः समराजवन्दितः गृहेषु मैथुन्यसुखेषु योषितां क्रीडामृगः पूरुषयीसनीयते करोति भवर्गो भ्रमतो यता भवे जनस्य दर्कश्च्युत सत्समागमः सत्सङ्गमो यर्कि तथैव सद्गतो परावरे से जायते मति मन्ये ममानुग्रहयिषते कृतो राज्यानुबन्धापगमो यदृश्यया य प्रार्थ्यते साधुभि एकचर्यया वनं विवीक्षद्भि अकण्ठभूमिपै न कामयेन्यं तव पादसेवनात् अकिञ्चन प्रात्यतमा त्वरं विभोम् आरात्यकस्त्वां ह्यपवर्गतं हरे प्रणीत आर्यो परमात्मबन्धनं तस्मात् विजृश्यासिष ईश सर्वथो रजस्तमस्तत्त्वगुणानुबन्धनाः निरञ्जनं निर्गुणमध्वयं परं त्वां व्यप्तिमात्रं पुरुषं व्रजां व्यहं चिरमिकवृजिनार्तस्तप्यमानोऽनुतापये अविदृष्टषडमित्रो लब्धशान्ति कथञ्चेत् शरणधसमुपेतस्त्वत्पदाब्जं परात्मन् अभयं मृतं सशोकं पाहि मापन्नमीश श्रीभगवानुवाच सार्वभौम महाराज मतिस्ते विमलोर्जिता वरैः प्रलोभितस्यापि न कामेर्विकथायतः प्रलोभितो वरैत्यत्वम् अप्रमादाय विदित नदीर्मय्यकभक्तानाम् आशीर्भिर्भित्यते क्वचित् युञ्जानाम् अभक्तानां प्राणायामादिभिर्मनः अक्षीणवासनं राजन् दृश्यते पुनरुत्थितम् विचरस्वमहीं कामं मय्यावेसितमानसः अस्त्वेव नित्यथा धुव्यं भक्तिर्मय्यनपायिनी क्षात्रधर्मस्थितो जन्तोन्यवधिर्मृगयादिभिः समाहितस्तत्तपसा ज्ञघम्मतुपाश्रितः राजन् सदभूत सुतम भूप् द्विजवरस्व मैश्यसि कवलभागवते महापुराणे दसमस्कंध उत्तरादे मुचुकुत स्तुतिर्नामेकम सर्व गोपी का जीवन स्मरण गोविंद गोविंद सदगुरुनाथ महाराज की जय